गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् थर्टि सेवेन् क उवाच तं दृष्ट्वा बालकं प्राह सिन्धूरो मदगर्विदः लज्जा मे जायदे मन्दयुध्यतो बालकेनः या हि शीघ्रं गृहं बाल पिब मुदा वृथा मच्छरपादेन सद्यो मृत्युमुपैष्यसि पलायन्देहि मां दृष्ट्वा केशाद्यास्त्रिदिवौकसः मृदे त्वयि तव स्नेहात्पितरौते मरिष्यतः अधो गच्छन मे स्वास्यं दर्शयस्व किशोरक यस्यमे तलकादेन तदखादेन सदधा भवेद देव उवाच सत्यमुक्दं त्वया दुष्ट न चेतसि विचारितं न ज्ञातं मम सामर्थ्यं रूपं वा विविधं त्वया यस्य मे क्रोधदृष्ट्यैव भ्रष्टास्युः सुरनायकाः स्वेच्छया कं सृजे भावैस्त्रिभिरेव हरामि च विश्वं चराचरं नानारूपवांस्तु युगे युगे भूमिभारं महाघोरं हरामि दुष्टनाशनाद न लखुर्लखुता मेदि पराक्रमयुतोऽपि चेत् अनुमात्रो देहेद्वह्निः सकलं न जिजिविषुश्चेद्गच्छ त्वं न त्वा मां निजमन्दिरं मानिनो नैव निघ्नन्दिनदं च शरणागदं नो चेन्मच्चस्त्रपादेन स्वर्गलोकं गमिष्यसि हदे त्वयि सुखं यास्येत् त्वया यत्पीडितं ब्रह्मणो वरदानेन मागर्वं कुरु दैत्यराट विपरीतं भवेत् सर्वं विपरीतं यथा पुरा स्तम्भेवतीर्णन्यहनद्धिरण्यकशिपुं विभुः सुग्रीवेण हदो बन्धु राममाश्रित्य विपरीतामधिर्जादा तवापि कालयो गतः अधिस्थूलो लखुतरो भाससे मम साम्प्रतं धृत्वा धैर्यं च च युद्धं कुरु मया सह एवमुक्त्वा दधाराशु विराड्रूपं गजाननः ब्रह्माण्डा दूर्ध्वमगमन्मस्तकश्चरणौ तथा पादालानि जसप्तानि भित्त्वा यातौ श्रुदीदिशः पश्यति स्म यदा दैत्यो बालं तं विश्वरूपिणं सहस्रशिरसं देवं सहस्राक्षं दिवो भुवं सहस्रपादं व्याप्याशुस्थितं व्याप्य दिशोदश दिव्याम्बरं दिव्यगन्धं दिव्यालङ्कारभूषितम् असङ्ख्यसूर्यसदृशमसङ्ख्यरूपिणं विभुम् एवं दृष्ट्वा विराड्रूपं चकम्पे दैत्यमानस्सं धृत्वा धैर्यं पुनर्दैत्यो ययौ देवस्य सन्निधौ जगर्जगर्जयन् व्योमधिशोऽपि पी विदिशोऽपि च उद्यम्य खड्गं सहसा देवं हन्तुमियेष ययौ तत्पुरधक्रोधात्पदङ्गोज्ज्वलनं यथा देव उवाच नायंमूढो विजानीदे स्वरूपं मम दुर्लभम् अहमेव विमोक्ष्यामीत्युक्त्वा कण्ठे दधारथं ममर्दसिन्धुरं तं कराभ्यां बलवत्तरं तदस्तदसृजाङ्गानि तादस, विलिलिम्बारुणेन स तदसिन्धूरवदनसिन्धूरप्रिय एव च अभवज्जगदीख्यादो भक्तकामप्रपूरकः सिन्धूरे निहदे देवा मुदा पुष्पाण्यवा किन्द्य जयवाद्यापण आयुस्त मुनयो वसी प्रमुखा सुरा ब्रह्माद्या सकलाशक्रपुरोगा वस्तु बाणय जय शब्द शब्द पूरय्दिशो दश तदे भूमिपाला युस्त मुद षोडशुपचार्माचु परमेश्वरं गजानन चुर्बा सर्वाभरणूषित दिव्याम्बरं दिव्यगन्धमाखुवाहनमीश्वरं प्रार्थया मा सुरिन्द्राद्या स्तों नहि शक्नुमः यत्र कुण्ठाश्च दुर्वेदाब्रह्माद्याश्च मुनीश्वराः त्वं कर्ता कारणं कार्यं रक्षकः पोषकोऽपि च संहर्ता मोहनश्चास्य विश्वस्य ज्ञानदक्वचिद सरिदसागरा वृक्षा पर्वता पशवोऽखिलाः वायुराकाशपृथिवीव निर्वारित्वमेव च ब्रह्माविष्णुशिवशक्रो मरुतो मुनयोऽपि गन्धर्वाश्चरणसिद्धा यक्षराक्षसपन्नगा अप्सर किन्नरा देव वयं धन्यायदो दृष्टप्रत्यक्षं मोक्षसाधनः सिन्धूरे दुहदे देवसुखं प्राप्ता सुरोत्तमाः राजानो मुनयो लोका स्व मुदारताः भविष्यन्ति स्वथा स्वाहा वषत्काराश्रुधा क्रियाः नानावतारैकुरुषे पालनं त्वं विशेषतः दुष्टानां नाशनं सद्यो भक्तानां कामपूरकः क उवाच एवमुक्त्वा सुरास्तं दुव्यदधुत्सर्व दु एव ते प्रासादं रम्यशिखरं स्थापयित्वा गजाननं यस्य दर्शनमात्रेण मुच्यते पादकाज्जनः कुलानि तारयेत्सप्तस्मरणादस्य मानवः पूजयित्वा प्रणम्य इनं परितृप्तिं ययुः सुराः ततस्थं मुनयः सर्वे पुपूजः परमादराद सिन्धूरहेदि नामास्य चक्रुः सिन्धूरनाशनाद अधिसन्तुष्टमनसो नत्वा जग्मुस्वमाश्रमम् तद सर्वे मुनिवरा न त्वादेवं स खकृतः पुपूजुः परमात्मानं नानाद्रव्यैरनेकषः राजसदनमिति ते क्षेत्रं ख्यातिमुपैष्यति वरेण्यस्तं विलोक्यैव निजपुत्रमबुध्यत यदोराज्ञां पदान्याशु हत्वा दैत्यं सुदारुणं दत्तानि भवदानाथ सिन्धूरं लोककण्डकं दैत्यविमर्दन इति नामख्यादिमुपैष्यति पुपूजतनयं स्नेहात्तदा दृष्टपराक्रमं मुमोच स्नेहजं चाश्रु न शशाकप्रभाषितुम् अधिगद्गदकण्ठत्वाद्ध्रुरोदभृशदुःखितः परेण्य उवाच मूढभावेन सन्ध्यक्रो विघ्नभेदेन पापिना यं त्वां यादा ब्रह्मशक्रपुरोगमाः अनन्दकोटिब्रह्माण्डनायकं त्वां न विद्महे कामधेनुं निधिं कल्पवृक्षम् मूढो यथा त्यजेद माययामोहितस्तेहमत्यजन्त्वां तथा गृहाद क उवाच इति तच्छ्रुत्यमाकर्ण्य कृपया परमेश्वरः आलिलिङ्गवरेण्यं तं चतुर्बाहुभिरादराद उवाच परयाभक्रिया भक्रिया वरेण्यनृपदिं विभुः देव उवाच पुराकल्पे महारण्ये तपस्तप्तं सुदारुणम् उभाभ्यां पक्वपर्णानि भक्षयित्वा वटस्यः दिव्यवर्षसहस्रेण प्रसन्नोऽहं तदा भवम् भवद्भ्यां हि वृद्धः पुत्रो न मोक्षो मूढभावतः सोऽहं पुत्रत्वमापन्नो भूभारहरणाय च सिन्धूरस्य वधं कर्तुम् साधूनां पालनं तथा अन्यथानशरीरं शरीरम्मे निराकारस्य साक्षिणः वचनं तु कृतं सत्यं त्रैलोक्यस्यापि तोषणं यास्येधुना निजं धामनत्वं शोके मनः कृधाः वरेण्य उवाच संसारे बहु दुःखानि दृष्ठानि दुःसहानि च इदानीं मोक्षमार्गं मे कृपया दिशदुःखभन् साक्षात्कारेकथं बन्धस्तव स्याद्विरदानन येनोपदेशेन मुक्तिं यास्यामि तद्वदस्व योगं तं येन सन्ध्यक्षे कामं क्रोधं मृदेर्भयम् क उवाच एवमाकर्ण्य तद्वाक्यं कृपयास गजाननः उपवेश्यस्वासनेतं श्वासनेतं हस्तं शिरसि चा ददथ गणेशगीतान्तस्मै स प्रचक्रमे निरस्य सर्वसन्देहान्विश्वरूपं प्रदर्श्य च गीतासारं स युद्ध्वैव गणेशस्योपदेशतः स्थाप्य राज्यममात्येषु तपस्ये वनमाययौ अदिवैराग्यसंयुक्तो दध्यौ तं च गजाननम् आवर्तयत्सदा गीतामनन्यविषया कृती यहां जलम जले क्षिप्त जलमे ही जायते तथा तध्यासोपिम्व मुनिवाच चुरान देशया परया वद गीता गणेशानशनीपुराणे क्रीडाखण्डे वरेण्योपदेशो नाम सप्तत्रिंशदधिकशततमोऽध्यायः ओम्